संभार्य तूर्यम् कलमतिरविदन् कार्यमार्यापि त्रुस्ता आगन्तुम् व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय रुष्टो दुष्टोक्ति विस्वङ्गरुडैव गिरिम् मञ्च मञ्चम् नुदञ्चत् खड्गौ यावत् दुःसङ्ग्रहमपि च हटः प्राग्रहीणौ